अथ पञ्चमोऽध्यायः शौनक उवाच पुराणमखिलम् तात पिता ते धीतवान् पुरा कच्चित्त्वमपि तत्सर्वमधीशे लो महर्षणे पुराणे कथा दिव्या आदिवंशाश्च धीमताम् कथ्यन्ते पुरास्माभिः सुतपूर्वः पितुस्तव तत्र वंशमहम् पूर्वम् श्रोतुमिच्छामि भार्गवम् कथयस्व कथामेताम् कल्या स्मः सौतिरुवाच यदधीतम् पुरा सम्यक् द्विच श्रेष्ठैर्महात्मभिः वैशम्पायन विप्राग्रैस्तैश्चापि कथितम् यथा यदधीतं च पित्रा सम्यक् चैव ततो मया तावतृणुष्वयो देवैः सेन्द्रैः सर्षिमरुद्गणैः भार्गवो भृगुनन्दन इमम् वंशमहम् पूर्वं भार्गवम् ते महामुने निगदामि यथा युक्तम् पुराणाश्रयसंयुतम् भृगुर्महर्षिर्भगवान् ब्रह्मणा वै स्वयम्भुवा वरुणस्य कृतौ जातः पावकाधिनः श्रुतम् भृगुः सुदयितः पुत्रश्चवनो नाम भार्गवः श्यवनस्य च दायाधः प्रमतिर्नाम धार्मिकः प्रमतेरप्यभूत्पुत्रो गृथाच्याम् रुरिरुत्युत रुरोरपिसुतो जज्ञे शुनको वेदपारगः प्रमद्वरायाम् धर्मात्मा तव पूर्वपितामहः तपस्वी च यशस्वी च सुतवान् ब्रह्मवित्थमः धार्मिकः सत्यवादी च नियतो नियताशनः शौनक उवाच सूतपुत्र यथा भार्गवस्य महात्मनः चवनत्वम् परिख्यातम् तन्ममाचक्ष्वपृच्छतः भार्या, तस्यां ृगोस्तुता धर्म पत्म यशस्व अभिषेकाय्रां भृगौर्म भृतांबरे आश्रम तस् रक्षोथ पुलोमा जहा तम् प्रविश्याश्रमम् दृष्ट्वा भृगोर्भार्यामनिन्दिताम् हृच्छयेन समाविष्टो विचेधाः समपद्यत अभ्यागतम् तु तद्रक्षः पुलोमाचारुदर्शना न्यमन्त्रयदवन्येन फलमूलादिना तदा तां तु रक्षस्तदा ब्रह्मन् हृच्छयेनाभिपीडितम् दृष्ट्वा हृष्टमभूत् राजन् जिहीषुस्तामनिन्दिताम् जिहीर्षुर्मुधितः शुभाम् सा हि पूर्वम् वृदा तेन पुलोम्ना तु शुचिस्मिता ताम् तु हर्तुम् चक्रे तमपृच्छत्ततो रक्षः पावकम् ज्वलितम् तदा शंसमेकस्य भार्येयमग्ने पृच्छे ऋतेन वै मुखम् त्वमसि देवानाम् वदपावकपृच्छदे मया हीयम् मृता भार्यार्थे वरवर्णिनी पश्चादिमाम् पिता प्रादाद् भृगवे मृदकारकः सेयम् इति वरारोहा भृगोर्भार्यारोहो तथा सत्यम् समाख्याहि जिहीर्षाम्याश्रमादि माम् समन्यस्तत्र मत्पूर्वभार्याम् यदि माम् भृगुरापसु मध्यमाम् सौतिरुवाच एवम् रक्षस्तमामन्त्र्य ज्वलितम् जादवेदसम् शङ्कमानम् त्वमग्ने सर्वभूतानाम् अन्धश्चरसि नित्यदा साक्षिवत् पुण्यपापेषु सत्यम् ब्रूहि कवेपूर्वापहृदा भार्या भृगुणानृतकारिणा सेयम् इति तथा मे त्वम् श्रुत्वा तुत्तो भृगोर्भार्याम् हरिष्याम्याश्रमादिमाम् जादवेधः पश्यतस्ते वदसत्याम् गिरम् मम तिरुवाच तस्तत्वनमुताचिदुखिभव भेदो नृदाच शापाच भृगोरीतब्रविछन अग्निवाच त्वया पुलो पूर्वं पुलोमेयम् पूर्वम् दानवनन्दन किन्वियम् विधिना पूर्वम् मन्द्रवन्न वृता त्वया पित्रातृभृगवे दत्ता पुलोमेयम् यशस्विनी ददाति न पिदातुभ्यम् वरलोभान्महायशाः यथेमाम् वेददृष्टेन कर्मणा विधिपूर्वकम् भार्या मृषिर्भृगुः प्राव काम् पुरस्कृत्य दानव सेयमग्छा नानृदम वक्त मुत्से नानृदम हि सदालोकेजदान श्री महाभारे आदिपर्व पौलोम पर्व पुलोमावादे पंचमोध्याषेकाय भृगौ धर्म भृतांबरे आश्रम तस् रक्षोथ पुलोमाभ्या जगा